अथ चतुःपञ्चाशः सर्गः वीक्षमाणस्ततोऽलङ्काम् कविः कृतमनोरथः वर्धमानसमुत्साहः का कार्यशेषमचिन्तयत् किम् नु खल्ववशिष्टम् मे वनन्तावत् प्रमथितम् प्रकृष्टा राक्षसा बलैकदेशः क्षपितः शेषम् दुर्गविनाशनम् दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम् अल्पयत्नेन कार्येऽस्मिन्मम दीप्यते हव्यवाहनः अस्य सन्तर्पणम् न्याय्यम् कर्तुमे निर्गृहोत्तमैः भवनाग्रेषु लङ्काया विचचार महाकपिः ग्रहाद्ग्रहम् राक्षसानामुद्यानानि च वानरः वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचारसः चा चा अवप्लुत्यमहावेगः प्रहस्तस्य निवेशनम् अग्न्यम् तत्र विनिक्षिप्य श्वसनेन समो बली ततोऽन्यत्पप्लुवेवेश्म वीर्यवान् मुमोचहनुमानज्ञम् कालानलशिखोपमम् वज्रदंष्ट्रस्य च तथा पुप्लुवे समहागपिः शुकस्य च महातेजाः सारणस्य च धीमतः तथा चेन्द्रजितो वेश्म ददाह हरियूथपः जम्बुमाले सुमालेश्च ददाह भवनम् ततः रश्मिकेतोश्च भवनम् सूर्यशत्रोस्तथैव च ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य यज्ञशत्रोश्च भवनम् ब्रह्मशत्रोस्तथैव च वर्जयित्वा महातेजा विभीषणगृहम् प्रति क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः तेषु तेषु महार्हेषु भवनेषु महायशाः गृहेष्वृद्धिमता वृद्धिम् ददाह कपिकुञ्जरः सर्वेषाम् समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ततस्तस्मिन् गृहे मुख्ये नानारत्र विभूषिते मेरुमन्दरसङ्काशे नानामङ्गलशोभिते प्रदीप्तमग्निमुत्सृज्जलाङ्गूलाग्रे प्रतिष्ठितम् ननादहनुमान् वीरो युगान्त जलदो यथा श्वसनेन च संयोगादतिवेगो महाबलः कालाग्निरिव जज्ज्वाल प्रावर्धत हुताशनः प्रदीप्तमग्निम् पवनस्तेषु वेश्मसु तानि काञ्चन जालानि मुक्ता मणिमयानि च भवनानि व्यशीर्यन्तरत्तवन्ति महान्ति च तानि भग्नविमानानि निपेतुर्वसुधातले भवनानीव सिद्धानामम्बरात् संय्ये तो मुल शब्दो राक्षसा प्रधाताे स््रृहपरी भग्नोत्साहश्रििया नूनमेषोरायात कपेण्ती क्रंद सह सापे तो स्तनधयधरा स्त्रि काशिदग्निपरीतांग्यो हर्मभ्यो मुक्तमूर्धज पतन्त्योरेजरेभ्रेभ्यः सौदामन्य इवाम्बरात् वज्रलिद्रुमवैदूर्यमुक्ता रजतसंहतान् विचित्रान्भवनाद्धातून् स्यन्दमानान् ददर्शसः न हनूमद्विशस्तानाम् राक्षसानाम् वसुन्धरा हनूमता वेगवता वानरेण महात्मना लङ्कापुरम् प्रदग्धम् तद् रुद्रेण त्रिपुरम् यथा ततः स लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः प्रसार्य चूडावलयम् प्रदीप्तो हनूमता वेगवतोपसृष्टः युगान्त कालामलतुल्यरूपः समारुतोऽर्ववृधे दिवः स्पृक् विधो सक्तो रक्षः शरीराज्य समर्पितार्चिः आदित्य कोटिसदृशः समस्ताम् परिवार्य तिष्ठन् तरत्राम्बरादग्निरतिप्रवृद्धो रूक्ष प्रभक्किम् शुकपुष्पचूडः निर्वाणधूमा कुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेभ्राः वज्रीमहेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोऽलो वा रौद्रोऽरर्को किम् ब्रह्मणः सर्वपितामहस्य लोकस्य धातुश्चतुराननस्य इहा किम् वैष्णवम् वा कपि इत्येवमोचुर्बहवो विशिष्टा रक्षो गणास्तत्र समेत्य सर्वे स प्राणि सङ्घाम् स गृहाम् स वृक्षाम् दग्धाम् पुरीम् ताम् सहसा समीक्ष्य ततस्तु लङ्का सहसा प्रदग्धा स राक्षसाश्वरथा समागा स पक्षि सङ्घा स मृगा सशब्दम् हातातः पुत्रक कान्तमित्रः जीवितेषाङ्गहतम् सुपुण्यम् रक्षोभिरेवम् बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सु भीमः हुता शनज्ज्वाल समावृता सा हत प्रवीरा परिवृत्त योधा क्रोध बलाभिभूता बभूवशापोपहते अलङ्का स सम्भ्रमम् त्रस्त विषण्ण राक्षसाम् समुज्ज्वलज्वाल हुताशनाङ्किताम् प्रदर्श लङ्काम् हनुमान् महामना स्वयम्बुरोषोपहतामिवावनिम् भङ्वा वनम् पादपरत्नसङ्कुलम् हत्वा तु रक्षाम्सि महान्ति संयुगे दग्ध्वा पुरीम् ताम् ग्रहरत्नमालिनीम् स राक्षसां स्तां सुबहूंश्च हत्वा वनम् च भङ्क्त्वा बहु पादपम् तत् विसृज्य रक्षो भवनेषु चाज्ञम् जगाम रामम् मनसा महात्मा ततस्तुतम् वाणर वीरमुख्यम् महाबलम् मारुततुल्यवेगम् महामतिम् वायुसुतम् वरिष्ठम् सर्वे देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरपन्नगाश्च भूतानि सर्वाणि महान्ति तत्र जग्मुः पराम् प्रीतिमतुल्यरूपा भङ्क्त्वा वनम् महातेजा हत्वा रक्षांसि संयुगे दग्ध्वालङ्का पुरीम् भीमाम् रराजसमः कपिः विचित्रे प्रतिष्ठितो वानरराजसिंहः प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवार्चिमाली लङ्काम् समस्ताम् सम्पीड्यलाङ्गूलाग्निम् महाकपिः निर्वापयामासदा समुद्रे हरिपुङ्गवः ततो देवाः स गन्धर्वाः सिद्धाश्च परमर्षयः दृष्ट्वा लङ्काम् प्रदग्धाम् ताम् विस्मयम् परमम् गताः तम् दृष्ट्वा वानरश्रेष्ठम् हनुमन्तम् महाकपिम् कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्र इत्यार्षे इत्यादर्शे वाल्मीकिये रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुःपञ्चाशः